अथ सप्तविंशत्यधिकशततमोऽध्यायः वैशंपायन उवाच ततः कुन्ती च राजा च भीष्मश्च सह बन्धुभिः तदा पाण्डोः स्वधामृतमयं तदा कुरुंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः रत्नौघान् विप्रमुखेभ्यो दत्त्वा ग्रामवरांस्तथा कृतशौचांस्ततस्तां स्तु पाण्डवान् भरतर्षभान् आदाय विविशुः सर्वे पुरं वारणसाह्वयं सततं स्मानु तमेव भरतर्षभं पौरजानपदाः सर्वे मृतं स्वमिव बान्धवं श्रद्धावसानेतु तदा दृष्ट्वा तं दुःखितं जनं सम्मूढां दुःखशोकार्तां व्यासो मातरमब्रवीत् अतिक्रान्तसुखाः कालाः पर्युपस्थितदारुणाः श्वश्वः पापिष्ठदिवसाः पृथिवीगतयौवना बहुमायासमाकीर्णो नाना दोषसमाकुलः लुप्तधर्मक्रियाचारो घोरःकालो भविष्यति गुरुणामनयाच्चापि पृथिवी न भविष्यति गच्छ त्वं योगमास्थाय युक्तावसतपोवने माद्राक्षीस्त्वं कुलस्यास्य घोरं संक्षयमात्मनः तथेति समनुज्ञाय प्रविश्य ब्रवीत् स्नुषाम्